नारायणीयं दशकं फिफ्टि वन् मीटर् अधिरुचिरा कदाचनव्रजशिशुभिः समं भवान् वनाशने विहितमधिः प्रगेतरा समावृतो बहुधर वत्समण्डलैस्सदे मनैर्निरगमगीष जेमनैः विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्जितं त्रिभुवनपावनं रजः महर्षयः पुलगधरैक्तले भरैरुदूहिरे धृतभवदीक्षणोत्सवाः प्रचारयत्यविरलशद्वलेतले पश्यून्विभो भवदि समं कुमारकैः अकासुरोऽन्यरुणदकायवर्तनीं भयानकः सपदि शयानकाकृतिः महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथिदमुखस्य कानने मुखोदरं विहरणकौतुकाद्गधा कुमारकाक् किमपि विदूरगे त्वयि प्रमाददप्रविशति पन्नगोदरं क्वधत्तन उपशुपकुले सवात्सगे विदन्निदं त्वमपि विवेशिधप्रभो सुहृज्जनं विशरणमाशुरक्षितुम् गलोदरे विपुलिदवर्ष्मणा त्वया महोरगे लुढदिनिरुद्धमारुते क्रुदम्भवान्विदलितकण्ठमण्डलो विमोचयन् पशुपपशून्विनिर्ययौ क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महद विनिर्गदे त्वयितु निलीनमञ्जसा नभस्तले नृदुरधो जगुस्सुरा सविस्म्यकमल भिद्रुतस्दनुधकुमार दिने मुपे पुनस्तुणशा मुपेयुषिस्वैर्भवा नुद भोजनोत्सव विशानिकामपि मुरलीं निदम्बके निवेशयन् कबलधरकराम्बुजे प्रहासयन् कलवजहै कुमारकान् बुभोजिधत्रिदशगणैर्मुदानुदः सुखाशनं त्विह तव गोपमण्डले महाशनात् प्रियमिव देवमण्डले इति स्तु दस्त्रिदशवरैर्जगत्पदे मरुत्पुरीनिलय गदात् प्रपाहि मां सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द